गर्गसंहित खण्डम् 10 अश्वमेधखण्डम् अध्यायम् फिफ्टी नैन् गर्ग उवाच अधोग्रसेनो नृपधिः पुत्रस्याम् विरज्य च व्यासम् पप्रसन्देहम् ज्ञात्वा विश्वम् मनोमयम् उग्रसेन उवाच ब्रह्मन् केन प्रकारेण हित्वा च जगदः भजे कृष्णं परं ब्रह्म तन्मे व्यास उवाच त्वदग्रे कथयिष्यामि सत्यं हितकरं वचः उग्रसेन महाराज शृणुष्वैकाग्रमानसः सेवनं कुरुराजेंद्र राजेन्द्र राधा कृष्णयोः परम् नित्यम् सहस्रनामभ्यामुभयोर्भक्तिदर्किदा सहस्रनाम राधाया विधिर्जानादिभूपदे शङ्करो नारदश्चैव केचिद्वै चास्मदादयः उग्रसेन उवाच राधिका नाम साहस्रं नारदाच्च पुरा श्रुतं एकान्ते दिव्यशिबिरे कुरुक्षेत्रे रविग्रहे नश्रुदं श्रुतं नाम साहस्रं कृष्णस्याक्लिष्टकर्मणः वद तन्मे च कृपया येन माप्नुयाद गर्ग उवाच श्रुत्वाग्रसनवचनं वेदव्यासो महामुनिः प्रश्यस्य तं प्रीदमन प्रागकृष्णं विलोकयन् व्यास उवाच शृणुराजन् प्रवक्ष्यामि सहस्रं नामसुन्दरं पुरा स्वधां निराधायै कृष्णेनानेन निर्मेदं इदं रहस्यं किल दत्ते जहानिः सदं भवेद्धि मोक्षप्रदं सर्वसुखप्रदंशं परम्परार्थं पुरुषार्थदं च रूपं च मे कृष्णसहस्रनाम पठेतुमद्रूप इव प्रसिद्धः दातव्यमेवं न शठाय कुत्र न कदापि दातव्यमेवं करुणावृताय गुर्वङ्घ्रिभक्तिप्रपरायणाय श्रीकृष्णभक्ताय सदाम्बराय तथा मदप्रोधविवर्जिताय ओम अस्य श्रीकृष्णसहस्रनामस्तोत्रमहामन्त्रस्य नारायणऋषिः भुजङ्गप्रयादं चन्दः श्रीकृष्णचन्द्रोदेवता वासुदेवो बीजं श्री श्रीराधाशक्तिः मन्मथक्किलकम् श्रीपूर्णब्रह्मकृष्णचन्द्रभक्तिजन्म बलप्राप्तये जपे विनियोगः चन्तः श्रीभुजङ्गप्रयाद अदध्यानम् शिखिमुपुडविशेषम् नीलपद्माङ्गदेशं विधुमुखकृदकेशं कौस्तुभापि दवेशं मधुररवकलेशं शम्भजेभ्रादृशेशं व्रजजनवनिदेशं माधवं राधिकेशं युधि ध्यानं हरिर्देवकीनन्दनकं स परात्मा च पीताम्बरपूर्णदेवः रमेशस्तु कृष्णपरेश पुराणः सुरेशोच्युतो वासुदेवश्च देवः धराभारहर्ता कृधिराधिकेशः परो भूवरो दिव्यगोलोकनाथः सुधाम्नस्तधाराधिकाशाभहे दुर् गृणीमानिनीमानदो दिव्यलोकः लसद्गोपवेशो ह्यजोराधिकात्मा चलकुण्डलकुन्दली कुन्दलस्रकरथस्तकदाराधया दिव्यरत्नः शुद्धा सौधभूचरणो दिव्यवासाः कदा वृन्दकारण्यचारी स्वलोके महारत्नसिंहासनस्तप्रशान्तः महाहंसभैश्चामरै विद्यमानश्चलच्चत्रमुक्ता वली शोभमानः सुकीकोटिकन्दर्पलीलाभिरामः क्वणन्नु पुरालङ्कृताङ्घ्रिशुभाङ्घ्रीः सुजानुश्च रम्भाशुभोरुकृशाङ्गः प्रदापी भुचुण्ड सुदुर्दण्डखण्डः जपापुष्पहस्तश्च शादोदरश्रीर्महापद्मवक्षस्थलश्चन्द्रः सः लसत्कुन्ददन्तश्च बिम्बाधरश्रीः शरत्पद्मनेत्रकिरीडोज्ज्वलाभः कोडि सखी कोटिभिर्वर्तमानो निगुञ्जे प्रियाराधयारा ससक्रो नवाङ्गः धरा ब्रह्मरुद्रादिभिः प्रार्थितः स धरा भार दूरी भारदूरीकृतोऽर्थं प्रजातः यदुर्देवकी सौच्यदो बन्धनचित् सशेषो विभुर्योगमायी च विष्णुः व्रजे नन्दपुत्रो यशोदा सुदाख्यो महासौख्यदो बालरूपशुभाङ्गः तथा पूतनामोक्षदश्यामरूपो दयालुत्वनो भञ्जनपल्लवाङ्घ्रिः तृणवर्तसंहारकारी जगोगो तदा गर्गदिष्टश्च भाग्योदयश्रीर्लसद्बालकेलिसरामस्तुवाजः क्व नु भुरैशब्द युग्रिङ्गमानस्तथा जानुहस्तैर्व्रजे शाङ्गणे वा दधिस्पृच्छय्यङ्गी दुग्धभोक्ता दधिस्तेय कृुग्ध भुक्भाण्डभेत्ता मृदं भुक्तवान् गोपजो विश्वरूपः प्रचण्डां सुचण्डप्रभामण्डिताङ्गः यस्योदाकरैर्बन्धनं प्राप्त आद्यो मणिग्रीवमुक्तिप्रदो दामबद्धः कदा नृत्यमानो व्रजे गोपिकाभिः कदानन्दसन्नन्दकैर्लाल्यमानः कदा गोपनन्दाङ्गगोपालरूपी कलिन्दाङ्गजाकुलगोवर्तमानः खनैर्मारुतैश्चिन्नभाण्डीरदेश्ये बृहीदोवरो राधयानन्दहस्ताद निकुञ्जे जगोलोकलोकागदेपि महारत्नसङ्घै कदम्बावृदे तदा ब्रह्मणाराधिका सद्विवाहे प्रतिष्ठां गदपूजित साममन्त्रैः प्रसीरासयुङ्मालदीनां वनेऽपि प्रियाराधयाराधितार्थं रमेशः आनन्दद श्रीनिकेदो वनेशोधनी सुन्दरो गोपिकेशः कदा नंदगेहे प्रापिदो नन्दगेहे यशोदाकरैर्लालितो मन्दहासः भयीक्वाभिवृन्तारकारण्यवासी महामन्दिरे वासकृदेव पूज्यः वने वत्सचारी महावत्सहारी बकारिसुहैपूजितोकारिनाम वने वत्सकृद्गोपकृद्गोपवेशः कदा ब्रह्मणा संस्तुतपद्मनाभः विकारी तथा तालभुग्धनुकारी सदा रक्षको गोविषार्तिप्रणाशी कलिन्दाङ्गजाकुलघकालीयस्य दमीनृत्यकारी भणेश्वप्रसिद्धः सलीलश्च मी ज्ञानद्ध कामपूरस्तथा गोपयुग्गोप आनन्दकारी स्थिरी अग्निभुक्पालको बलोरोहिणीजश्च रामश्च शेषः बलीपद्मनेत्रश्च कृष्णाग्रजश्च हरेशभणीशस्तु नीदाम्बराभः महासौख्यदोह्यग्निहारव्रजेशः शरद्ग्रीष्मवर्षा करकृष्णवर्णः व्रजे गोपिका पूजितश्चिरहर्ता कदम्बे क्षुधानाशकृत्यज्ञपत्नी मनस्पृकृपा कारककेलिकर्ता वनीशः व्रजेशक्रयागप्रणाशी मिदाशी स्यूनाशिरमोहप्रदो बालरूपी गिरे पूजको नन्दपुत्रो कृपाकृत्य गोवर्धनोद्धारि नाम तथा वादवर्षा हरो रक्षकश्च व्रजाधीश गोपाङ्गनाशङ्कितः सन् अगेन्द्रोपरि शक्रपूज्य स्तुदङ् प्राङ् मृषाशिक्षको देवगोविन्दनाम दिव्य प्रजाधीशरक्षाकरपाशिपूज्योन्नुजैर्गोपजैर्दिव्यवैकुण्ठदर्शी चलच्चारुवंशी कुणकामिनीशो व्रजे कामिनी मोहदकामरूपः रसा क्रोरसीरासकृद्राधिकेशो महामोहदो मानिनी मानहारी विहारी वरो मानहृद्राधिकाङ्गो धराद्वीपगखण्डचारी वनस्थः प्रियो ह्यष्टवक्रार्षृदृष्टा सराधो महामोक्षदपद्महारी प्रियार्थः वडस्तः सुरश्चन्दनाक्रप्रसक्तो व्रजं ह्यागदो राधया मोहिनीषु महामोहकृद् गोपिका गीतकीर्तिरथस्तपडी दुःखिताकामीशः वने वशीगोपिकामध्यगप्येशवाचः प्रिया प्रीतिकृद्रा स रक्तकलेशः रस रक्तचित्तो ह्यनन्दस्वरूपः स्रजा समृदो वल्लवी मध्यसंस्थः सुबाहु सुपादसुवेशसुकेशो व्रजेश सखवलेशणकिंगिणीजापुराढ़सको ह्यदी हिरीडी चलत्कुंडलस्ांगुयस्पुर कौस्तू मल मंडितांग महा महानृत्यकृद्रासरङ्गकलाढ्यश्चलद्धारभो भामिनी नृत्ययुक्तः कलिन्दाङ्गजाकलिकृत्कुङ्कुमश्रीः सुरैर्नायिकानायकैर्गीयमानः का सुखाढ्यस्तु राधापदि पूर्णबोधः कडाक्षस्मिदीवल्गिदभ्रुविलासः सुरम्यो लिभिकुन्दलालोलकेशः स्फुरद्बर्ह कुन्दस्रजाचारुवेषः महासर्पदो नन्दरक्षापराङ्घ्रिः सदा मोक्षदशङ्खचूडप्रणाशी प्रजारक्षको गोपिका गीयमानः कगुमिप्रणाशप्रयासः सुरेज्ञः कलिक्रोधकृत्कं स मन्त्रोपदेष्ट तथा क्रूरमन्त्रोपदेशी सुरार्थः बलिकेशिकपुष्पवर्षो मलश्रीस्तदा नारदा दर्शितो व्योमहन्ता तदा क्रूरसे वा परः सर्वदर्शी व्रजे गोपिकामोहदकूलवर्ती सदीराधिका बोधदस्वप्नकर्ता विलासी महा महामोहनाशी स्वबोधः व्रजे शापतस्त्यक्रराधा सकाशो महामोहदावाग्निदग्धपदिश्च सखि बन्धनान् मोहिदाक्रूर आरात्सखी रधस्तो व्रजे राधया कृष्णचन्द्रः सुगुप्तो गमी गोपकैश्चारुलीलः जले क्रूरसन्दर्शितो दिव्यरूपो पुरी मोहिनी चित्तमोही प्रणाशी सुवस्त्रह चिंतमोह तथारंगकार्रणशी सुवस्त्री वाक प्रेतिपूज्य महाकीर्तिदे कु विनोदी स्फुचंडकोदंडग प्रचंड बड़ा प्रधक् कंस दुःस्वप्नकारी महामल्लवेक्षरीन्द्रप्रहारी महामात्याह रङ्गभूमिप्रवेशी रसाढ्यो यशपृग्ली वाग्पडुश्रीः महामल्लभायुद्धकृस्त्रीव चोर्थी धरानायकंसहन्दा यदु प्राक् सदा पूजितो ह्युग्रसेनप्रसिद्धो धराराज्यदो यादवैर्मण्डिताङ्गः गुरोपुत्रदो ब्रह्मविद्ब्रह्मपाढी महाशङ्खः दण्डधृक्पूज्य एव व्रजे गोपमोही यशोदाकृनी गोपिकाज्ञानदेशी सदा स्नेहकृत्कुब्जया पूजिताङ्गस्तथा क्रूरगे सङ्गमी मन्द्रवेता तथा पाण्डवप्रेषिता क्रूर एव सुखी सर्वदर्शी नृपानन्दकारी महाक्षौहिणी हा जरा सन्धमानी का मोक्षकर्ता रणे सार्वभौमस्तुतोज्ञानदा जरासन्तसङ्कल्पकृ वदङ्क्रीः नगादुत्पदद्वारिका मध्यवर्ती तदा रेवभूषणस्तालचिह्नः यदुरुक्मिणी कारकश्चैद्यवेद्यस्तदा रुक्मिरूपप्रणाशी सुखाशी अनन्ताश्च मारश्च कार्ष्णीश्च कामो मनोजस्तधा शम्बरारी रदीशः रथी मीनके दुशरी स्मरो दर्पको मानः प्रियसत्यभामा प्रियसत्यभामपदिर्यदवेशो प्रियसत्यभामापादिर्यादवे शोद्धसत्राजिदप्रेम पूरप्रहासः महारत्नदो जाम्भवद्युद्धकारी महाचक्रधृक् खड्ग धृध्राम महाचक्रधृक् खड्ग धृग्रामसन्धिः विहारस्थितपाण्डवप्रेमकारी कलिन्दाङ्गजामोहनः काण्डवार्थी सकाफल्गुणप्रेधिकृन्नग्रकर्ता तथा मित्रविन्दापधि क्रीडनार्थी नृपप्रेम कृद्गुजिदसप्तरूपो दसत्या पधि यथेष्टः नृपैः समृद्धश्चाभिभद्रावधिस्तु विलासी मधोर्मानिशो जनेशः शुनाशिरमोहावृदसत्सभार्यः सत्तार्क्ष्यो मुरारिपुरी सङ्घभेत्ता सुवीरशिरखण्डनो दैत्यनाशी शरीभौमः चण्डवेगप्रवीरः धरासंस्तुधकुण्डलच्छद्रहर्ता महारत्नयुग्राजकन्याभिरामः महा। शचीपूजितशक्रजिन्मानहर्ता तदा परिजातापहारी रमेशः गृही चामरयशोभिदो भीष्मकन्या पतिर्हास्य कृमानिनी मानकारी रधारुक्मिणी वाक्पडुप्रेमगेहः सदिमोहनकामदेवा परश्रीः सुदेष्णसुचारुस्तधा चारुदेष्णो परश्चारुदेहो बली चारुगुप्तः सुदीभद्रचारुस्तदा चारुचन्द्रो विचारुश्च चारुरधिपुत्ररूपः सुभानुप्रभानुस्तथा चन्द्रभानुर्बृहद्भानुरेवाष्टभानुश्च सम्भः सुमित्रक्र दुश्चित्रके दुस्तु वीरोश्वसेनो वृषश्चित्र दुश्चन्द्रबिम्बः विशङ्कुर्वसुश्चश्रुतो भद्र एकः सुबाहुर्वृषपूर्णमासस्तु सोमः वरशान्दिरेव प्रकोष्ठो धंहो बलो ह्यूर्ध्व गोवर्धनोन्नाद एव महाशो वृकपावनो वन्निमित्रः क्षुधिर्हर्षकश्च निलो मित्रजिच्च सुभद्रो जयसत्यको वाम आयुर्यदुकोडिशपुत्रपौत्रप्रसिद्धः हलीदण्डदृदृक्मिकाचानिरुद्धस्त राजभिर्हास्य गोद्युतकर्ता पुत्री मधुर्ब्रह्मसूर्बाणपुत्रीपतिश्च महासुन्दरकमपुत्रो बलिशः महादैत्यसङ्ग्रामकृद्यादवेशः पुरीभञ्जनोऽभूद सन्त्रासपारी मृधी रुद्रजे रुद्रमोही मृदार्ती तथा स्कन्दजित्वपकर्णप्रहारी धनोर्भञ्जनो बाणमानप्रहारी ज्वरोत्पत्तिकृत्संस्तुतस्तु ज्वरेण भुजा छेदकृद्बाणसन्द्रासकर्ता मृडप्रस्तुतो युद्धकृद्भूमि भर्ता नृगं मुक्तिदो ज्ञानदो यादवानाम् रथस्तो व्रजप्रेमपो गोपमुख्यः महासुन्दरी क्रीडितपुष्पमाली कलिन्दाङ्गजा भेदनशिरपाणिः महादम्भिः पौण्ड्रमानप्रहारी शिरश्च दख काशिराजप्रणाशी महाक्षौहिणी ध्वंसकृचक्र हस्तः पुरी दीपको राक्षसी नाशकर्ता अनन्दो महिद्रः फणी वानरारिः स्फुरद्गौरवर्णो महापद्मनेत्रः कुरु ग्रामतिर्यगदो गौरवार्थः स्तुतकौरवः पारिबर्हि सःसाम्बः महावैभवोद्वारकेशो ह्यनेकश्च लन्नारदश्रीप्रभादर्शकस्तु महर्षिस्तुदो ब्रह्मदेवः पुराणः सदाषोडशस्त्रीसहस्रस्थितश्च गृही लोकरक्षापरो लोकरीतिः प्रभुर्युग्रसेनावृतो दुर्गयुक्तः तथा राजदूतस्तदो बन्धभेट्ट स्थितो नारदप्रस्तुत पाण्डवार्थी नृपैर्मन्द्रकृद्युद्धवप्रीतिपूर्णो वृधपुत्रपौत्रै कुरुग्रामगन्दा कृणीधर्मराजस्तुतोदो भीमयुक्तः परानन्ददो मन्त्रकृद्धर्मजेन देश्याजिद्बलीराजसूयार्थकारी जरासन्तः भीमसेनस्वरूपः तथा विप्ररूपो गदा युद्धकर्ता कृपालुर्मः बन्धनच्छेदकारी नृपै संस्तुतो द्विजयिसंवृदो यज्ञसंभारकर्ता जनै पूजितश्चैद्यदुर्वाक्षमश्च महामोहदोरे शिरश्चेदकारी महायज्ञशोभाकरश्चक्रवर्वी नृपानन्दकारी विहारी सुरारी सभासंवृदो मानकृत्कौरवस्य तथा शाल्वसंहारको यानकन्ता सभोजश्च वृष्णिर्मधुशूरसेनो दाशार्हो यदुर्यन्धको लोकजिच्च द्युमन्मानः वर्म धिक् द्युमन्मानः वर्म दृग्दिव्यशस्त्री स्व बोधः रक्षगो रक्षको दैत्यहन्दा तदा दन्तवक्त्रप्रणाशी गदा धृक् जगस्तीर्थयात्रा करपद्मभारः कुशीसुदन्ता कृपा कृत्स्मृतिशोमलो बल्वलाङ्गप्रभा खण्डकारी तदा भीमदुर्योधनज्ञानदा परोहिणी सौख्यदो रेवदीश्यह महादानकृद्विप्रदारिद्र्यः च सदाप्रेम प्रेम यो श्रीसुधाम्नसहायः तदा भार्गवक्षेत्रगन्धा सरामोथ सूर्योपरागश्च श्रुतः सर्वदर्शी महासेनया चास्तिदस्नानयुक्तो महादानकृन्मित्रसम्मेलनार्थी तथा पाण्डवप्रीदितकुन्दिदार्थी विशालाक्षमोहप्रदशान्दिदाश्च वटेराधिकाराधनो गोपिकाभिः सखी कोटिभिराधिका प्राणनाथः सखी मोहदावाग्निः वैभवेशः स्फुरत्कोटिकन्दर्पलीला विशेषः सखीराधिका दुःखनाशी विलासी सखी मध्यगशापः माधवीशः शतं वर्षविक्षेप हृन्नन्दपुत्रस्तथा नन्दवक्षो गतश्रीतलाङ्गः यशोदाशु च स्नानकृद्दुःकहन्दा सदा गोपिका नेत्रलग्नो तदा संस्तुतपराजी धनी लक्ष्माण सदा हीषोडशस्त्री सहस्रस्तुद शुको व्यासुमुसित भरवाचको गौतमो हा श्री स वसिष्ठशदानन्द आद्यः सरामः पर्वदो नारदो धौम्य इन्द्रोसितोत्रेर्विभाण्डप्रचेदाकृपश्च कुमारसनन्दस्तथा यज्ञवल्क्यो ऋभुर्ह्यङ्गिरादेवलश्रीमृकण्डः मरीचीक्रदुश्चौवकोलोमशश्च पुलस्त्यो भृगुर्ब्रह्मराधोऽवशिष्ठः नरश्चापि नारायणो दत्त एव तथा पाणिनिपिङ्गलो भाष्यकारः सपात्यायनो विप्रपादाञ्जलिश्चाद्धो गर्गो गुरुर्गीष्पदिर्गौतमीशः मुनिर्जाजलिकश्यपोगालवश्च द्विजसौभरिश्चर्ष्य शृङ्गश्च कण्वः द्विजश्चैकतश्चापिजादुद्भवश्च खनः कर्दमस्यात्मजकर्दमश्च तदा भार्गवः कौत्सुकश्चारुणस्तु का शुचिप्पिपलादो पुत्रः सफैलस्तथा जैमिनि सत्सुमन्दुर्वरो गाङ्गलस्फोटगेः फलादः सदा पूजितो ब्राह्मण सर्वरूपी मुनीशो महामोहनाशो मरप्राक मुनीशस्तुतशौरिविज्ञानदा महायज्ञकृत्याभृतस्नानपूज्यः सदा दक्षिणादो नृभैपारिबर्हि व्रजानन्ददो द्वारिकागेहदर्शी महाज्ञानदो देवही पुत्रदश्चासुरैपूजितो हीन्द्रसेनाधृतश्च सदा फाल्गुनप्रीतिकृत् सत्सुभद्रा विवाहे द्विपार्श्वप्रदो मानयानः भ्रुवं दर्शको मैथिलेन प्रयुक्तो द्विजेनाशुराज्ञा स्थितो ब्राह्मणैश्च कृति मैथिले लोकवेदोपदेशी सदा वेदवाक्यैस्तु दशेषशायी परीक्षावृतो ब्राह्मणैश्चामरेषु भृगु प्रार्थितो दैत्यहाचेश रक्षी स क चार्जुनस्याभिमानप्रहारी तथा विप्रपुत्रप्रदोधामगन्धा विहारस्थितो माधवीभिस्तदाङ्गो महामोहदा वाग्निदग्धाभिरामः यदुर्युग्रसेनो नृपो क्रूर एव तथा चोद्धवशूरसेनश्च शूरः हृदिकश्च सत्रा जिदस्चा प्रमेयो जितश्चाप्रमेयो देवभागः तथा मानस सञ्जयश्यामकश्च वृको वत्सको देवको भद्रसेनः नृपो जादशत्रुर्जयो माध्रिपुत्रो ध भीष्मकृपो बुद्धिचक्षुश्च पाण्डुः तथा शन्तनुर्देव बाह्लीकयेवाध भूरि श्रवाश्चित्रवीर्यो विचित्रः वी शलश्चापि दुर्योधनकर्णयेव सुभद्रासुधो विष्णुराधप्रसिद्धः स जन्मे जयक्पाण्डव कौरवश्च तथा सर्वतेजा हरिः सर्वरूपी व्रजं क्यागतो राधया पूर्णदेवो वरो रासलीलापरो दिव्यरूपी रथस्थो नवद्वीपखण्डप्रदर्शी महामानदोगोपजो विश्वरूपः सनन्दश्च नन्दो वृषो वल्लभेशः सुदामार्जुनसौ बलस्तोक एव स कृष्णों शुकसद्विशालर्षभाग्यः सुतेजस्विककृष्णमित्रोऽवरुधः कुशेशो वनेशस्तु वृन्दवनेशस्तधा माधुरेशाधिपो गोकुलेशः सदा गोगणो गोपतिर्गोपिकेशो ध गोवर्धनो गोपतिकन्यकेशः अनादिस्तु चात्मा हरिपूरुषश्च परो निर्गुणो ज्योतिरूपो निरीहः सदा निर्विकारप्रपञ्चात्परश्च स सत्यस्तु पूर्ण परेशस्तु सूक्षायां तथा चाश्व कर्ता नृपेण भी पौत्रेण भूभार हर्ता पुनःव्रजेरास रंग कर्ता हरी राधया गोपिकाना चर्ता पूरीतांगत योग कालजिच्च सुदृष्टिर्मह तत्त्वरूपप्रजातः सकूडस्त आद्याङ्घुरो वृक्षरूपः विकारस्थितश्च ह्यहङ्कार एव स वैकारकस्तैजसस्तामसश्च नमो दिक्समीरस्तु सूर्यप्रचेदोष्वक्निश्च चक्रो ह्युपेन्द्रस्तु मित्रः श्रुते त्वक्च्च दृक्खाणजिह्वागिरश्च भुजां मेढ्रगपायुरङ्घ्रिः सचेष्टः धराव्योमवार्मारुतश्चैव तेजोधरूपं रसो गन्धशब्दस्पृशश्च सचित्तश्च बुद्धिर्विराट्कालरूपस्तथा वासुदेवो जगत्कृद्धताङ्कः धाण्डेशयानः सेष्ठसहस्रस्वरूपो रमानाथ आद्योऽवतारः सदा सर्गकृत्पद्मजकर्मकरुता तथा नाभिपद्मोद्भवो दिव्यवर्णः कविर्लोककृत्कालकृत् सूर्यरूपो निमेषो भवो वत्सरान्दो महीयान् तिधिर्वारनक्षत्रयोगश्च लग्नो धमासो घटी च क्षणकाष्टिकाजा मुहूर्तस्तु यामो ग्रहायामिनी च दिनं चक्षमालागतो देवपुत्रः कृतो द्वापरस्तु त्रिदस्तत्कलिस्तु सहस्रं युगस्तत्र मन्वन्तरश्च लह्यपालनं सत्कृतिस्तत्परार्थं सदोत्पत्तिकृद्व्यक्षरो ब्रह्मरूपः तथा रुद्रसर्गस्तु कौमारसर्गो मुनेः सर्गकृदेव कृत्प्राकृतस्तु श्रुतिस्तु स्मृतिस्तोत्रमेवं धनुर्वेद इज्याध गान्धर्ववेदः विधाता च नारायणः सत्कुमारो वराहस्तथा नारदो धर्मपुत्रः मुनिः कर्दमस्यात्मजो दत्त एव स यज्ञो मरो नाभिजश्रीपृथुश्च सुमस्यश्च कुर्मश्च धन्वन्तरिश्च पथा मोहिनी नारसिंहप्रतापी द्विजो वामनोरेणुका पुत्ररूपो मुनिर्व्यासदेवश्रुतिस्ततोऽत्र कर्ता धनुर्वेदभा ग्रामचन्द्रावतारः ससीतापदिर्भार हृद्रावणारीः नृपः सेतु कृद्वा नरेन्द्रे नरेन्द्रप्रहारी महायज्ञकृद्राघवेन्द्रप्रचण्डः बलकृष्णचन्द्रस्तु कल्किकलेशस्तु बुद्धप्रसिद्धस्तु हंसस्तधाश्वः ऋषीन्द्रोजितो देववैकुण्ठनाथो ह्यमूर्तिश्च मन्वन्तरस्यावतारः गजोद्धारणश्रीमनुर्ब्रह्मपुत्रो नृपेन्द्रस्तु दुष्यन्तजो धनशीलः सदृष्टश्रुतो भूत एवम्भविष्यत् भवस्तावरो जङ्गमोऽल्पं महच्च यदि श्रीभुजङ्गप्रयातेन चोक्तम् अरेराधिकेशस्य नाम्नां सहस्रं पठेद्भक्तियुक्तो द्विज सर्वदा हि कृतार्थो भवेत् कृष्णचन्द्रस्वरूपः महापापराशिं विनत्ति श्रुतं यत् सदा वैष्णवानां प्रियं मङ्गलं च इदं रासरागादिने चाश्विनस्य तथा कृष्णजन्माष्टमीमध्येव तथा चैत्रमासस्य रागादिने वा द्रे राधाष्टमी सद्दिने वा पठेद्भक्तियुक्तदस्त्विदं पूजयित्वा चतुर्ध्वा सुमुक्तिं तनोधिप्रशस्तः पठेत् कृष्णपुर्यां च वृन्दावने वा व्रजे गोकुले वापि वंशी वटे वा क्षये वा तडे सूर्यपुत्र्याः सभक्तो गोलोकधामप्रयादि भजेद्भक्तिभावा च सर्वत्र भूमौ हरिं कुत्र जानेन गेहे वने नो हरित्तं च भक्तम् सुवश्यो भवेन्माधवकृष्णचन्द्रः सदा गोपनीयं सदा गोपनीयं सदा गोपनीयं प्रयत्नेन भक्तैः प्रकाश्यं न नाम्नां सहस्रं हरेश्च न दातव्यमेवं कदा लम्पटाय इदं पुस्तकं यत्र गेहेऽपि तिष्ठेत् वस्य द्राधिकानाद आद्यस्तु तत्र तथा षड्गुणसिद्धयो द्वादशाभिर्गुणैस्त्रिंशैर्लक्षणैस्तु प्रयान्ति इति श्रीमद्गर्गसंहितायामश्वमेधखण्डे श्रीकृष्णसहस्रनामवर्णनं नामैको न षष्टितमोऽध्यायः ओ